अन्नवाम् दक्षिणावांश्च सर्वैः समुदितो गुणैः युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः सुनयाद्वासुदेवस्य भीमार्जुनबलेन च घातयित्वा जरासन्धम् चैद्यम् च बलगर्वितम् दुर्योधनम् समागच्छन्नर्हणानि ततस्ततः मणिकाञ्चन रत्नानि च विचित्राणि च वासांसिप्रावारावरणानि च कम्बलाजिनरत्नानि राङ्कवास्तरणानि च समृद्धाम् ताम् तथा दृष्ट्वा पाण्डवानाम् तदाश्रियम् ईर्ष्या समुद्धः सुमहांस्तस्य मन्युरजा यत तत्र मयेन सुकृताम् सभाम् पाण्डवानामुपहृताम् सदृष्ट्वा पर्यतप्यत तत्रावहसितश्चासीत् प्रस्कन्दन्निव सम्भ्रमात् प्रत्यक्षम् वासुदेवस्य भीमेनानभिजातवत् भी स भोगान् विविधान् भुञ्जन् रत्नानि विविधानि कथितो कथितोद्धृतराष्ट्रस्य विवर्णो हरिणः अन्वजानात्ततोद्यूतम् धृतराष्ट्रः सुतप्रियः तच्छ्रुत्वा वासुदेवस्य कोपः समभवन् महान् नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत द्यूतादीननयान् घोरान् विविधांश्चाप्युपैक्षत निरस्य विदुरम् भीष्मम् द्रोणम् शारद्वतम् कृपम् विग्रहे तुमुले तस्मिन् दहन् क्षत्रम् परस्परम् जयत्सुपाण्डुपुत्रेषु सुमहदप्रियं सुमहदप्रियम् दुर्योधनमतम् ज्ञात्वा कर्णस्य शकुनेस्तथा धृतराष्ट्रश्चिरम् ध्यात्वा संजयं वाक्यमब्रवीत् शृणु सञ्जय सर्वम् मे न चासूयितुमर्हसि श्रुतवानसि मेधावी बुद्धिमान् न विग्रहे मम मतिर्न च कुलक्षये नमे मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा वृद्धम् मामभ्यसूयन्ति पुत्रामन्युपरायणा अहम् त्वचक्षुः कार्पण्यात् पुत्रप्रीत्या सहामि तत् चानुमुह्यामि दुर्योधनमचेतनम् <स्थार्णा> राजसूये श्रियम् दृष्ट्वा पाण्डवस्य महौजसः तच्चावहसनं प्राप्य सभारोहणदर्शने अमर्षणः स्वयम् जेतुमशक्तः पाण्डवानरणे निरुत्साहश्च सम्प्राप्तम् स श्रियम् क्षत्रियोऽपि सन् गान्धारराजसहितश्छद्मद्यूतमन्त्रयत् तत्र यद्यद्यथाज्ञातम् मया सञ्जय तत् श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः ततोज्ञास्यसि माम् सौते प्रज्ञा चक्षुषमित्युत यदा श्रौषम् धनुरायम्यचित्रम् विद्धम् लक्ष्यम् पातितम् वैपृथिव्याम् कृष्णाम् हृताम् प्रेक्षताम् सर्वराज्ञाम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् द्वारकायाम् सुभद्राम् प्रसह्योढाम् माधवीमर्जुनेन इन्द्रप्रस्थम् वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् देवराजम् प्रविष्टम् शरेर्दिव्यैर्वारितम् चार्जुनेन अग्निम् तथा तर्पितम् खाण्डवे च तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् जातुषाद्वेश्मनस्तान् मुक्तान् पार्थान् पञ्चकुन्त्या समेतान् युक्तम् चैषाम् विदुरम् स्वार्थसिद्धौ तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् द्रौपदीम् रङ्गमध्ये लक्ष्यम् भित्त्वा निर्जिताम् अर्जुनेन शूरान् पञ्चालान् पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् मागधानाम् वरिष्ठम् जरासन्धम् क्षत्रमध्ये ज्वलन्तम् दोर्भ्याम् हतम् भीमसेन गत्वा तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् दिग्विजये पाण्डुपुत्रैर्वशीकृतान् भूमिपालान् प्रसह्य महाक्रतुम् राजसूयम् कृतम् च तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् द्रौपदीमश्रुकण्ठीम् सभाम् नीताम् दुःखिताम् एकवस्त्राम् रजस्वलाम् नाथवतीमनाथवत् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् वाससाम् तत्र राशिम् समाक्षिपत् कितवो मन्द बुद्धिः दुःशासनो गतवान् नैव चान्तम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् हृतराज्यम् युधिष्ठिरम् पराजितम् सौबलेनाक्षवत्याम् अन्वागतम् भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् विविधास्तत्र चेष्टा धर्मात्मनाम् प्रस्थितानाम् वनाय ज्येष्ठ प्रीत्या क्लिश्यताम् पाण्डवानाम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् स्नातकानाम् सहस्रैरन्वागतम् धर्मराजम् वनस्थम् भिक्षाभुजाम् ब्राह्मणानाम् महात्मनाम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषमर्जुनम् देवदेवम् किरातरूपम् त्र्यम्बकम् तोश्च युद्धे अवाप्तवन्तम् पाशुपतम् महास्त्रम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् वनवासेतुपार्थान् समागतान् महर्षिभिः पुराणैः उपास्यमानान् सगणैर्जातसख्यान् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् त्रिदिवस्थम् धनञ्जयम् शक्रात् साक्षाद्दिव्यमस्त्रम् यथावत् अधीयानम् शंसितम् सत्यसन्धम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् कालकेयास्ततस्ते पौलो मानो वरदानाच्च दृप्ताः देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय सञ्जय यदाश्रौषमसुराणाम् वधार्थे किरीटिनम् यान्तममित्रकर्शनम् कृतार्थम् चाप्यागतम् शक्रलोकात् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् तीर्थयात्रा प्रवृत्तम् पाण्डोः सुतम् सहितम् लोमशेन तस्मादश्रौषीदर्जुनस्यार्थलाभम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् वैश्रवणेन सार्धम् समागतम् भीममन्यांश्च पार्थान् तस्मिन् देशे मानुषाणामगम्ये तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् घोषयात्रागतानाम् बन्धम् गन्धर्वैर्मोक्षणम् चार्जुनेन स्वेषाम् सुतानाम् कर्णबुद्धौ रतानाम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् यक्षरूपेण धर्मम् समागतम् धर्मराजेन सूत प्रश्नान् कांश्चित् विब्रुवाणम् च सम्यक् तदा नाशंसे विजयाय सञ्जय